थैको नषष्टितमः सर्गः रतस्तदमृतास्वादम् गृध्रराजेन भाषितम् निशम्यवदता हृष्टास्तेवचः प्लवकर्षभाः जाम्बवान् वा सह सर्वैः प्लवङ्गमैः भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत् क्व सीता केन वा दृष्टा को वा तदाख्यातु भवान् सर्वम् गतिर्भवमनोकसा ओदाशरथिबाणानाम् वज्रवेगनिपातिनाम् स्वयम् लक्ष्मणमुक्तानाम् न नचिन्तयति विक्रमं। स हरीन्प्रति सम्मुक्तान् सीताश्रुतिसमाहितान् पुनराश्वासयन् प्रीत इदम् वचनमब्रवीत् श्रूयतामिह वैदेह्या यथा मे हरणम् श्रुतम् येन चापि ममाख्यातम् यत्र चायतलोचना अहमस्मिन् दुर्गे बहुयोजनमायते चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः तम् मामेवम् गतम् पुत्रः सुपार्श्वो आहारेण यथा कालम् वरः तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः मृगाणाम् तु भयम् तीक्ष्णम् ततस्तीक्ष्ण क्षुधा वयम् स कदाचित् क्षुधात्तस्य ममाहाराभिकाङ्क्षिणः गतसूर्येह निर्प्राप्तो मम पुत्रोऽह्य नामिषः समयाहारसंरोधात् पीडितः प्रीतिवर्धनः अनुमान्य यथा तत्त्वमिदम् वचनमब्रवीत् अहम् तात कालमामिषार्थी खमाप्लुतः महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः तत्र सत्त्वसहस्राणाम् सागरान्तरचारिणाम् पन्थानमेकोऽध्यवसम् सन्निरोध्वमवाङ्मुखः तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभा स्त्रियमादाय गच्छन् वै भिन्नाम् जनचयोपमः सोऽहमभ्यवहारार्थम् तौ दृष्ट्वा कृतनिश्चयः तेन साम्ना विनीतेन पन्थानमनुयाचितः न हि सामोपपन्नानाम् प्रहर्ता विद्यते भुवि नीचेष्वपि च नः कश्चित् किमङ्गबतमद्विधः स यातस्तेजसा व्योमसङ्क्षिपन्निववेगितः अथाहम् खेचरैर्भूतैरभिगम्य सभाजितः दिष्ट्या जीवति सीतेतिह्यब्रुवन् माम् महर्षयः कथञ्चित् सकलत्रोऽसौ गतस्ते स्वस्त्य संशयम् एवमुक्तस्ततोऽहन्तैः सिद्धैः परमशोभनैः स च मे रावणो राजा रक्षसाम् प्रतिवेदितः पश्यन्दाशरथेर्भार्याम् रामस्य जनकात्मजा भ्रष्टाभरणकौशेयाम् शोकवेगपराजिता रामलक्ष्मणयोर्नाम क्रोशन्तीम् मुक्तमूर्ध्वजा एष कालात् कयस्तात इति वाक्यविदाम्बरः एतदर्थम् समग्रम् मे सुपार्श्वः प्रत्यवेदयत् तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे अपक्षो हि कथम् पक्षी कर्म किञ्चित् समारभेत् यत्तु शक्यम् मया कर्तुम् वाग्बुद्धिगुणवर्तिना श्रूयताम् तत्र वक्ष्यामि भवताम् पौरुषाश्रयम् वाङ्मतिभ्याम् हि सर्वेषाम् करिष्यामि प्रियम् हि वः यद्धि दाशरथे कार्यम् मम तन्नात्र संशयः तद्भवन्तो मतिः श्रेष्ठ बलवन्तो मनस्विनः प्रहिताः कपि राजेन देवैरपि दुरासदाः रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः त्रयाणामपि लोकानाम् पर्याप्तास्त्राणनिग्रहे काम खु दश्रीवस्तेजो बल समता सर्थनाचिद काल संगे न क्रियता बुद्धि निश्चय नि कर्मसु सज्जंते बुद्धिमंत इर्शे श्रीमद्मा आदि का्य किष्किन्धाकाण्डे एकोनषष्टितमः सर्गः